हरि ओम् श्री सीता रामचन्द्रभ्यां नमः अथ श्रीमद् वाल्मीकि रामायणे अयोध्याखण्डे नवनवतितमः सर्ग भरतेन शत्रुघ्नाधिभिः श्रीरामाश्रमे गत्वा तत्पर्णशालाया निरीक्षणम् रुद्रतेन भ्रातुश्रणयो निपतनं श्रीरामेण तैः सार्धं समालिङ्गनम् निवेष्टायां सुसेनायाम् उत्सुको भर्त सत जगातरम द्रष्टुम शत्रुघ्नमशय वशिष्ठ तंदोर्मे शीघ्र मग्ने जगाम गुरुवत्स मन्त्र स्वपि शत्रुघ्नम् अधुरा दन्वपद्यत जमादर्शनजस्तर्श भरतः सेवतस्य च गच्छन् देवाथ भरते तापसालय संस्थितां धातु पर्णकुटिं श्रीमान् उपजं च ददर्श चालाय सग्रतस्तस्या काष्ठानि चावभग्नानि पुष्पाणि अपचितानि च स लक्ष्मणस्य रामस्य ददर्शाश्रममीयुष कृतं विश्वेष्व विज्ञानम् कुश क्षीरे क्वचित् क्वचित् सदर्श च वने तस्मिन् महते सञ्चयान् कृतान् मृगाणाम् महिषाणां च कलिषैषी सकारणात् गच्छन्नेव महाबाहु द्युतिमान् भरतस्तदा शत्रुघ्नम् चा भवेत् दृष्टे मन्दे प्राप्तास्मादे तं वेषम् भरद्वाजोयम् अब्रवीत् नातिदूरे हि मन्येऽहम् नदीं मन्दः किमितः उच्चैर्बद्धानि क्षीराणि लक्ष्मणेन भवेरयम् अभिज्ञान कृतपन्त विकारे गन्तुमिच्छत इतश्चोदात्तदन्दानाम् कुञ्जराणाम् तरस्विनाम् शैलपार्श्वे परिक्रान्तम् अन्योन्यम् अभिगर्जताम् यम् एवाधातुमिच्छन्ति ताप सततं वने तस्याश्च दृश्यते धूमह सङ्कुले कृष्णवर्त्मनः अत्राहम् पुरुषव्याघ्रम् गुरुसत्कार्यकारिणम् आर्यम् द्रक्ष्यामि संवृष्टम् महर्षिम् इव राघवम् अथ गत्वा मुहूर्तम् तु चित्रकूटम् स राघव मन्दाकिनीम् अनुप्राप्त तं जनम् चेदमब्रवीत् जगत्याम् पुरुषव्याघ्र आसे वीरासने रतः जनेन्द्रो निर्जनं प्राप्य दिम्बे जन्म स मत्कृते व्यसनं प्राप्तो लोकनाथो महद्युतिः सर्वान् कामान् परिज्यत्यञ्ज वने वस चिराघवे इति लोकः समाकृष्ट प्रसादयन् रामम् तस्य पतिषामि सीताया लक्ष्मणस्य च एवं स विलपम् तस्मिन् वने दश रथात्मज ददर्श महतीम् पुण्याम् पर्णशालाम् मनोरमाम् शालातालाश्वकरणामाम् पर्णैः बहुभिरावृताम् विशालाम् मृदु चक्रायुध निकाशै च कार्मुकै भारसाधने रक्मपृष्ठे महासारे शोभितां शत्रुबाधकै अर्कलक्ष्मी प्रतिकाशै घोरैतूर्णगतै शरैः शोभितां दीप्तवदने सर्पये भोगवतीमिव महाराजतवासोभ्याम् असिभ्यां च विराजिताम् बिन्दु विचित्राभ्याम् चन्मभ्याम् चापि शोभिताम् बोधाङ्गुलेत्रै आसक्तै चित्रकाञ्चन भूषितै अरिसङ्गै अनाधृश्याम् मृगे सिंह गुहाम्बिवे प्राहृदयप्रवणाम् वेदिम् विशालाम् दीप्तपावकाम् ददर्श भरत तत्र पुण्यां राम निरीक्ष स तु ददर्श भरतो गुरुम् उटजे राममासीनम् जटामण्डलधारिणम् कृष्णाञ्जन तन्तु श्रीरवल्कलवाससं ददर्श राम आसीनम् अभितये पापकोपमम् सिंहस्कन्धम् महबहुम् पुण्डरीक निभीक्षणम् पृथिव्या सागरान्ताय भर्तारम् धर्मचारिणम् उपविष्टम् बाहुम् ब्रह्माणम् इव शाश्वतम् स्तञ्जिले दर्भसंस्तीर्णे सीतया लक्ष्मणेन च तं दृष्ट्वा भरत श्रीमान् शोकमोह परिप्लुतः अभ्यधावत् धर्मात्मा भरत केके सुतः दृष्ट्वैव विला विलला पाठो बाष्प सन्दिग्धया गिर अशक्नुवन् वारयितुम् दय्या वचनम् यत्सं सदी प्रकृतिभि भवेद्युत्य उपासितुम् वन्दे मृगे उपासेन सोऽयं मास्ते ममाग्रजे वासोभि बहु यो महात्मा पुरोचितः मृगार्जिने सोयमिहे प्रवर्ते धर्ममाचरन् अधारयद्योगविधा चित्रासु मनसः सदा सोयं यथा भारमिमम् सह ते राघव कथम् यस्य यथा दृष्टै यस्तो धर्मस्य सञ्चय हे शरीरे क्लेशसम्भूतम् स परिमार्गते चन्दनेन महारेण यस्याङ्गम् यस उपसेवितम् बलेन तस्याङ्गमिदम् कथम् आर्यश्च सेव्यते मन्निमित्तम् इदम् दुःखम् प्राप्तो राम सुखोचितः दि जीवितम् चुङ्कस्य मम लोकः विगर्हितम् इत्येवम् विलपन्देन प्रसन्नमुखपङ्कज पादो रामस्य अपाथ भरतोर्दन् दुःखापि तप्तो भरत राजपुत्रो महाबले उक्त्वा येति पुनन्दो पुनन्धो वाच किञ्चन बाट्वे यशस्विनं, च प्रेक्ष्य रामम् शत्रुघ्न चापि रामस्य वन्दे चरणो रुदन् सौभोच समालिङ्ग्य रमोक्यश्रूण्यवर्तयत् ततस्तु मन्त्रेण गुहेन चैव समीयतु राजसुतावरण्ये दिवाकर चैव निशाकर च यथाम्बरे शुक्रबृहस्पतिभ्याम् तान्थिवान् वारणयूथ पार्हान् समागतान् तत्र महत् अरण्ये विसमीक्ष सर्वे सश्रून्य मञ्चन्त्र विहाय हर्षम् इत्याध्ये श्रीमद् रामायणे वाल्मीकीयाधिकार्ये अयोध्याकाण्डे नव नव नवतितमः सर्ग श्रीसीतारामचन्द्रार्पणमस्तु